भीष्मौ उवाच देवगन्धर्वरत्नानि दयितेयासुरजानि च यानि सन्तीह रत्नानि या नरकस्य निवेशने एतत्तु गरुडे सर्वं क्षिप्रमारोप्य वासवः दाशार्हपतिना सार्धमुपायान् मणिपर्वतम् तत्र पुण्या वववुर्वाताः प्रभाश्चित्राः समुज्ज्वलाः प्रेक्षताम् सुरसङ्घानाम् विस्मयः समपद्यत त्रिदशाषयश्चैव चन्द्रादित्यौ यथादिवि प्रभया तस्य शैलस्य निर्विशेषमिवाभवत् अनुज्ञातस्तु रामेण वासवेन च केशवः प्रीयमाणो महाबाहुर्विवेशमणिपर्वतम् हेमचित्रपताकैश्च प्रासादैरुपशोभितः हर्म्याणि च विशालानि मणिसोपानवन्ति च तत्र स्थावरवर्णाभा प्रिया दुहितरस्तदा त्रिविष्टप समे देशे तिष्ठन्तमपराजितम्